श्रीगुरुभ्यो नमः हरिः ओणानान्त्वागणपतिगुम् भवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्त न शृण्वन् मोतिभिः सेदसादनम् श्रीमहागणपतय नमः ओम् प्रणो देवे सरस्वदेवायभिर्वाजिने वते धीनामवित्र्यवतु आनो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम् भवन् देवे तुजुषाणाघृता चे शुग्मान् नोवाचमुषति शृणोतु श्रीसरस्वत्यै नमः ममोपात्त समस्तदुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थम् करिष्ये ॐ ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषमतः सुरुचो वेन आवह स बुद्धिया उपमा अस्य विष्ठा सतश्च योनिमसतश्च विवहा नाकेषु पर्णमुपयत्वतन्तगुम् हृदा वेनन्तो अभ्यचक्षतत्वात् हिरण्यपक्षम् वरुणस्य धूतम् यमस्य यो नौषगुणम् भुरण्युम् आप्याय स्वसमेते विश्वतः सोमवृष्ण्यम् पवाजस्य सङ्गते यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राजनमोऽस्तु इदम् विष्णुर्विचक्रमे त्रेधानिदधे पदम् समोढमस्य सुरे इन्द्रम् विश्वा अविवृधन् समुद्रव्य च सङ्गिरः रथेतमगुम् रथीनाम् वाजानागुम् अपो वा इदगुम् सर्वम् विश्वा भूतान्यावः प्राणा वा आपः पशव आपोन्नमापो नृतमापः सम्राडापोभिराडापः स्वराडापश्चन्दागस्यापो ज्योतेगश्यापोजोगश्यापः सत्यमापः सर्वा देवता आपो भूर्भुवः अपः प्रणयति श्रद्धा वा आपः श्रद्धा मेवारभ्य प्रणेय प्रचरति अपः प्रणयति यज्ञो वा आपः यज्ञमेवारभ्य प्रणेयः प्रचरति अपः प्रणयति वज्रो वा आपः वज्रमेव भ्या द्रव्येभ्यः प्रहृत्य प्रणीय प्रचरति अपः प्रणयति आपो वै रक्षोघ्नेः रक्षसामपहत्यै अपः प्रणयति आपो वै देवानाम् प्रियन्धाम देवानामेव प्रियन्धाम प्रणेय प्रचरति अवः प्रणयति आपो वै सौवा देवताः देवता एवारभ्य प्रणेय प्रचरति आपो वै शान्ताः शान्ताभिरेवास्यशुचगुम् शमयति देवो वत्स पितोऽर्तुरा त्वच्छिद्रेण पवित्रेण वसो सूर्यस्य रश्मिभिः कूर्चाग्रे राक्षसाम् घोराञ्छिन्दि कर्म विघातिनः त्वामर्पयामि कुम्भेऽस्मिन् साफल्यम् कुरु कर्मणि वृक्षराजसमुद्भूताः शाखायाः स्पल्लवत्वचः युष्मान् कुम्भेष्वर्पयामि सर्वपापापानुत्तये नारिकैरसमुद्भूत त्रिनेत्र हरसत्तमा शिखाया दुरितम् पापं पापम् दा। सहिरत्नानि दाशुषे सुवाति सविताभगः म् भागम् चित्रमीमहे तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः अहणमानो वरुणे हबोजुरुषगुम् समानायः प्रमोषीः ओम् भोर्भुवः सुवरोम् अस्मिन् कुम्भे वरुणमावाहयामि वरुणस्य इदमासनम् वरुणाय नमः सकलाराधने स्वर्चितम् अथ पञ्चाङ्गरुद्राणान्यासपूर्वकञ्जपहोमार्चनाभिषेकविधिम् या आख्यास्यामः नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्नने बाहुभ्यामुतते नमः यात इषुः शिवतमा शिवम् बभूव धनुः शिवा शरव्या यातवतया नो रुद्रमृडयाम् गम् गङ्गम् यरलवशशस होम् ॐ नमो भगवते रुद्राय पूर्वाङ्गरुद्राय नमः अपैतु मृत्युरमृतम् न आगन्वैव स्वतो नो अभयम् कृणोतु पर्णम् वनस्पतेरिवाभिनश्रीयतागुम्रयः स च नमो भगवते रुद्राय दक्षिणाङ्गरुद्राय नमः निधनपदजनमः निधनपदाञ्जिकाजनमःलिङ्गाजनमः हिरण्यलिङ्गाजन्याजनमः दिव्यलिङ्गाजनमः भवाजनमः भवलिङ्गाजनमः शर्वाजनमः शर्वलिङ्गाजनमः शिवाजनमः शिवलिङ्गाजनमः ज्वलिङ्गा जनमः आत्मा जनमः आत्मलिङ्गा जनमः परमाजनमः परमलिङ्गा जनमः एतत्सोमस्य सौर्यस्य सर्वलिङ्गस्थापयति पाणिमन्त्रम् पवित्रम् ठण्ठम् डण्ठण् यरलवशशसहो ॐ नमो भगवते रुद्राय पश्चिमाङ्गरुद्राय नमः यो रुद्रो अग्नौ यो अप्सुय ओषधेषु यो रुद्रो विश्वाभुवना विवेशतस्मै रुद्राय नमो अस्तु तम् दम् दम् धन्नम् यरलवशशस होम नमो भगवते रुद्राय उत्तराङ्गरुद्राय नमः प्राणानां ग्रन्थिरसि प्रोमाविषान्तकः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युम् मे पाहि पम् भम् बम्भम् जरलवशशसहोम् ओम् नमो भगवते रुद्राय ऊर्ध्वाङ्गरुद्राय नमः तत्पुरुषाय विद्महे महा धीमहि तन्नो रुद्रः प्रचोदयात् संवर्ताग्तटिप्रदीप्तकनक प्रस्तर्धितेजोर्णम् गम्भीरध्वनि सामवेदजनकम् ताम्राधरम् सुन्दरम् अर्धेन्दुद्युतिलोलपिङ्गल वन्दे सिद्धसुरासुरेन्द्रनमितम् पूर्वम् मुखम् शूरिनः ओम् नमो भगवते रुद्राय पूर्वाङ्गमुखाय नमः अघोरेभ्योऽघोरेभ्योऽघोरघोरदलेभ्यः सर्वेभ्यः सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः कालाभ्यभ्रमराञ्जनद्युतिनिभम् व्यावृत्तपिङ्गेक्षणम् कर्णोद्भासितभोगिमस्तकमणि प्रोद्भिन्नदंष्ट्राङ्गुलम् सर्वप्रोदकपालशुक्तिशुकलव्याकीर्णताशेखरम् वन्दे दक्षिणमीश्वरस्य वदनम् राथर्वलादोदयम् ओम् नमो भगवते रुद्राय दक्षिणाङ्गमुखा ज नमः सद्यो भवद्यामि सद्यो जाता नमः भवे भवे नाति भवे भव स्वमाम् लेयाचलमिन्दुगुन्दधवलम् गोक्षीरफेन प्रभम् भस्माभ्यङ्गमनङ्गदेहदन ज्वालाबलीलोचनम् विष्णुब्रह्म सन्देहम् सकलम् कलङ्करहितुम् स्थाणोर्मुखम् पश्चिमम् ओम् नमो भगवते रुद्राय पश्चिमाङ्गरुखा जनमः लमदेवा जनमो ज्येष्ठ जनमः श्रेष्ठ जनमो रुद्रा जनमः काल जनमः कलविकर्णा गौरम् कुङ्कुमपङ्कितम् सुतिलकम् व्यापाण्डुवण्डस्थलम् भूविक्षेपकटाक्षवेक्षणरसक्तखण्डोत्तरम् स्निग्धम् बिम्बफलाधरम् प्रहस्य तम् नीलाकालम् कृतम् वन्दे याजुष वेदघोषजनकम् वक्रम् हरस्योत्तरम् ओम् नमो भगवते रुद्राय उत्तराङ्गमुखाय नमः ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो व्यक्ताव्यक्तनिरूपितम् च परमम् षट्त्रिंशतत्वाधिकम् तस्मादुत्तरतत्त्वमक्षरमिति ध्येयम् सदा योगिभिः ओङ्कारादि समस्तमन्त्रजनकम् सूक्ष्मादि सूक्ष्मम् परम् वन्दे पञ्चममीश्वरस्य वदनम् कव्यापि नमो भगवते रुद्धाय ऊर्ध्वाङ्गमुखाय नमः रुद्र या ते रुद्रशिवातनोरघोरापानि तन्मसि शिरसे नमः सहस्राणि सहस्रशोये रुद्राधिभूम्याम् तेषाकम्सहस्रयो जने वधन्वानि तन्मसि ललाटाय नमःतिषद्वसुरन्तरे र्द्रोऽसत् ऋषद्वरसदृतसद्वो मसद्या गोजातजा अद्रिजातम् रहत् भुवोर्मध्याय नमः त्यम्बकै यजामहे सुगन्धिम् पुष्ट्यवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षे यमामृतात् नेत्राभ्यान्नमः नमसृत्याय च पथ्याय नमः काट्याय च नेप्याय च नमस्वोद्याय च सरस्याय च नमो च वैषन्दाय च कर्णाभ्यान्नमः मानस्तोकेतनय मानवायुषि मानो गोसुमानो अश्वेषु दीरिशः वीरान् बालो रुद्रपामितो नमसा विधेमते नासिकाभ्यान्नमः अवदत्यथनुस्त्वकम् सहस्राक्षसतेषु निषेर्यशल्याम् मुखा शबो नः सुमनाभव मुखाजनवः नीलग्रेवा श्रुतिकण्ठा शर्वाधा क्षमादराः एषा कुम्सहस्रयो जने वधन्मानि तन्मसे कण्ठा जनवः वीरग्रे वाश्चिति कण्ठादिवकम् रुद्रा उपश्रिताः तेषाकंसहस्रयो जने वधन्वानि तन्मसि उपकण्ठाय नमः नमस्ते अस्त्वायुधा जानातदायधृष्णवे जा उभाभ्या नमो बाहुभ्यान्तवधन्वने बाहुभ्याम् याते हेतुर्मेष्णमहस्ते बभूवते धनुः तया स्मान् विश्वतस्तमयक्ष्मजा परिभुजा उपबाहुभ्यान्नमः परिणो रुद्रस्य हेतुर्वृणक्तुपरि त्वेषस्य दुर्मतिरघायोः अवस्थिरामघवध्यस्तनुष्वमेध्वस्तोकायतनया या मणिबन्धाध्यान्वः एतेऽर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः तेषाकुम् सहस्रयो जने वधन्मानि तन्मसि हस्ताभ्यां नमः सद्यो प्रपद्यामि सद्यो जाता नमः भवे भवे भवे भव स्वमान् भवोद्भवा जनमः नमः वामदेवा जनमो ज्येष्ठ जनम श्रेष्ठ जनमो रुद्रा जनमः काला जनमः कलविकर्णा जनमो बलविकर्णा जनमो बला जनमो बलप्रमथन जनमः सर्वभूतदमन जनमो बलोन्मना जनमः तर्जने ्यान्नमः अघोरे अभ्यो अघोरे अभ्यो घोरघोरतलेभ्यः सर्वेभ्यः सर्वे सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः अध्यवाभ्यान्नमः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् अनामिकाभ्यां नमः येषानः सर्वविद्यानामेश्वरः सर्वभूताधिपतर्ब्रह्मणोऽधिपतिर्ब्रह्म शिवो मे अस्तु सदा शिवो कनिष्ठिकाभ्यां नमः नमो भक्तिरिकेभ्यो देवानागम् हृदयाभ्यः हृदयाय नमः नमो गणेभ्यो गणपति ृष्ठा जनमः न मस्तक्षभ्यो रथकारेभ्यश्च भो नमो नमः कक्षाभ्यां नमः नमो हिरण्यबाहवे दिशाञ्चपदय नमः पार्श्वाभ्यान्नमःधनुः कर्दिनो विशल्यो बाणवागम् उता शव आभुरस्य निषङ्गति हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् सदाधार पृथिवेञ्जामुदे माम् कस्मै देवाय हविषा नाब्ध्ये नमः तम शिवो नः सुमनाभवा प्रवे वृक्षायुधन् निधा जकृत्यम् नमः हे भूतानामधिपतयो विशिखासः कवर्दिनः तेषाकुम्सहस्रयो जने वधन्मानि तन्मसि कुष्याय नमः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् तेषा गुङ्गास्त्रयो जने वधन्मान् तन्मसि अण्डा नमः सशिराजातवेद अक्षरम् परमम् पदम् वेदा नागुं शिरसि माता आयुष्मन्तम् करोतु अपानाय नमः मानो महान्तमुतमानो अर्भकम् मानोक्षन्तमुतमान उक्षितम् मानो वधे पितरम् नुवो रुद्ररीरिषः पूरुभ्याम् नमः एष ते रुद्रभागस्तञ्जुषः वसेन परोमोजवतो तेश्ववतधन्नापि नाकासाः जानुभ्याम् नमः भिरस्ता सकुम् सृष्टजित्सो बपा बाहुश्रदेताभिरस्ता परिदेक्षोहामित्राकुम् अपबाधमानः जङ्घाभ्यान्नमः विश्वम् भूतम् भुवनम् चित्रम् बहुधा जातं जायमानम् चलित सर्वोच्चेष रुद्रस्तस्मै रुद्राजनमो अस्तु गुल्फाभ्यान्नमः ये पथाम् पथिलक्षयैलभृदा यव्युधः तेषाकम् शास्त्रयो जने वधन्मानि तन्मसि पादाभ्यान्नमः अध्यमो ददसि वक्ता प्रथमो दैव्योऽषग अहेकश्च सर्वाञ्जम्भजन्त सर्वास्तया तुम् नमो बिल्बिने च कवचिनेत रमःुताय च श्रुतसेनाय च उपगवचाय हुम् नमोऽस्तु मेलग्रेवाय सहस्राक्षाय मेधुष अथो य अस्य सत्त्वानोऽहन्तरम् नमः नेत्रत्रयाय वौषट् प्रमुञ्च धन्वहस्त्वमुभयोरात्नियोज्याम् याश्च ते हस्तयिषवः पराता भगवो बपा अस्त्राय भट एतावन्तश्च भूयागुंसश्च दिशोरुद्रावितस्त खरे तेषाकुम्सहस्रयो जने मथन्वानि तन्मसि इति दिग्बन्धः सद्यो जातम् प्रपद्यामि सद्यो जाता जवै नमो नमः भवे भवे नाच् भवे भव स्वमाम् भवोद्भवा जनम पादाभ्यान्नमः रामदेवा जनमो अज्येष्ठ जनम श्रेष्ठ जनमो रुद्रा जनमः काला जनमः कलविकर्णा नमः मनोज मनोज नमः ऊरुभ्यं नमः अखोर अभध ठाकुर अभध घोर अखोर तरेभ्यः सर्वेभ्यः सर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः हृदयाय नमः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् मुखाय नमः ईशानः सर्वविद्यानामेश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो हंसं नमः अस्य श्री हंसगायत्रे महामन्त्रस्य अव्यक्तपरब्रह्मऋषिः अनुष्टुप्छन्दः परमहंसोदयता हंसाम् बीजम् हंसीम् शक्तिः हंसोम् केलकम् परमहंसप्रसादसिद्ध्यर्थ जपविनियोगः हंसाम् अङ्गुष्ठाभ्यान्नमः हंसीम् तर्जनेभ्यान्नमः हंसोम् मध्यमाभ्यान्नमः हंसैम् अनामिकाभ्यान्नमः हंसोम् कनिष्ठिकाभ्यान्नमः हंसः करतलकरपृष्ठाभ्यान्नमः हंसाम् हृदयाय नमः हंसैम् शिरस स्वाहा हंसोम् शिखायै वषट् हंसैम् कवचाय हुम् हंसौम् नेत्रत्रयाय वोषट् हंसः अस्त्राय भट भूर्भुवः सुररोमिति दिग्बन्धः ध्यानम् गमागमस्थम् गमनादिशून्यम् चिद्रोपदेपङ्क्तिभिरापहारम् पश्यामि च सर्वजनान्तरस्थम् नमामि हंसम् परमात्मरूपम् हंस हमसा हंसाय विद्महे परमहंसाय धीमहि तन्नो हंसः प्रचोदयात् हंस हंसेदयो ब्रूयाद्ध्वंसो नाम सदाशिवः एव न्यासविधिम् कृत्वा ततः सम्पुटमारभेत् ओम् भूर्भुवः सुभरोम् लम् राता रमिन्द्रमविता रमिन्द्रकुम् हवे हवे सुहपुंसो रमिन्द्रम् भुवेनुशक्रम् बृहोतमिन्द्रग्रः स्वस्ति नो लम् भोर्भुवस्सुवः इन्द्राय भद्रहस्ताय सुराधिपतय ऐरावतवाहनाय साङ्गाय सायुधाय सशक्तिपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वर पार्षदाय नमः पूर्वदिग्भागे ललाटस्थाने इन्द्रः सुप्रेतो सुप्रसन्नो वरदो भवतु ओम् भोर्भुवस्सु वरोम् रम् तन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडो अग्नये शक्तिहस्ताय तेजोऽधिपतये अजवाहनाय साङ्ग्राय सायुधाय सशक्तिपरिवाराय सर्वालङ्कारभूषिताय नमः आग्नेय दिग्भागे नेत्रस्थाने अग्निः सुप्रीतो सुप्रसन्नो वरदो भवतु भुवस्सुवरोम् हम् सुगन्धः पन्थामभयम् कृणोतु यस्मिन्नक्षत्रे यमयेति राजा यस्मिन्नेन अभ्यषिञ्चन्तदेवाः तदस्य चित्रकम् भविषाय जाम हम् भोर्भुवत्सुवः यमाय दण्डहस्ताय धर्माधिपतरे महिषवाहनाय साङ्ग्राय सायुधाय सशक्तिपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वर दक्षिणदिग्भागे कर्णस्थाने यमः सुप्रीतो सुप्रसन्नो वरतो भवतु ओम् भो भुवः सु वरोम् शम् असुन्वन्तमयजमानमिच्छस्तेन सेत्रान्तस्करस्यान्वेषे अन्यमस्त्वदिच्छसात इत्या नमो देवि निर्वृते तुभ्यमस्तु शम् भोर्भुवः सुवः निर्वृतये खड्गहस्ताय रक्षोधिपतये नरवाहनाय साङ्गाय सायुधाय सशक्तिपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः नैरवृतदिग्भागे मुखस्थाने निरवृतिः सुप्रीतो सुप्रसन्नो भवतो भवतु सुवरोम् वाम् तत्त्वायामिब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः अहेळमानो वरुणेहभोद्धुरुषकुम् समानायः प्रमोषेः वाम् भोर्भुवस्सुवः वरुणाय पाशहस्ताय दलाधिपतये मकरवाहनाय साङ्गाय सायुधाय सशक्तिपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वर पार्षदाय नमः पश्चिमदिग्भागे बाहुस्थाने वरुणः सुप्रीतो सुप्रसन्नो वरतो भवतु ओम् भूर्भुवः सुवरोम् यम् आनो नियुद्धिष्यतिनीभिरध्वरम् सहस्रिणीभिरुपया हि योऽयम् पात स्वस्तिभिः सदानः यम् भोर्भुवस्सुवः वायवे साङ्कुशध्वजहस्ताय प्राणाधिपतरे मृगवाहनाय साङ्गायसायुधाय सशक्तिपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः वायव्यदिग्भागे नासिकास्थाने वायुः सुप्रसन्नो वरतो भवतु स्सुवरोम् सं वयगुं सोमव्रते तव मनस्तनोषु विभ्रतः प्रजावन्तो असीमहि सं भोर्भुवस्सुवः सोमाय अमृतकलशहस्ताय नक्षत्राधिपतये अश्ववाहनाय साङ्ग्राय सायुधाय सशक्तिपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः उत्तरदिग्भागे हृदयस्थाने सोमः ो वरदो भवतु ओम् भोर्भुवःसुवरोम् शम् जगतस्तस्थुषस्पतिम् धियञ्जिन्मवसे हूमहे भयम् पोषाणो यथा वेदसामसद्भृते रक्षिता पादुरदब्धस्वस्तरे शम् भोर्भुवः सुवः ईशानाय त्रिशूरहस्ताय विद्याधिपतरे वृषभवाहनाय साङ्गाय सायुधाय सशक्तिपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः ईशानदिग्भागेनाभिस्थाने ईशानः सुप्रीतो सुप्रसन्नो वरतो भवतु ओम् भोर्भुवत्सु वरोम् खम् अस्मै रुद्रामेहनापर्वता सो वृत्रहत् ते भरहूतौ सजोषा आशंसते स्तुवते धायि पद्र इन्द्रज्येष्ठा अस्माम् अवन्तु देवाः ुवः ब्रह्मणे पद्महस्ताय लोकाधिपतये हंसवाहनाय साङ्गाय सायुधाय सशक्तिपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः ऊर्ध्वदिग्भागे मूर्ध्वस्थाने ब्रह्मा सुप्रीतो सुप्रसन्नो वरतो भवतु भुवः सुवरोम् ह्रीम् योगापृथिविभवादृक्षरादिवेशनी यच्छानः शर्म सप्रथा आह ह्रीम् भोर्भुवत्सुवः विष्णवे चक्रहस्ताय आगाधिपतये गरुडवाहनाय साङ्गाय सायुधाय सशक्तिपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः अधो दिग्भागे पादस्थाने विष्णुः सुप्रीतो सुप्रसन्नो वरतो भवतु ओम् भोर्भुवस्सुवः ओम् अम् नमः शम्भवेतमयो भवेत नमः शङ्कराय तमयस्कराय च नमः शिवाय च शिवतराय च विभोरसि प्रवाहणो रोद्रैानीके न माहि माग्ने माहि अम् ओम् भोर्भुवत्सुवरोम् शिखास्थाने रुद्राय नमः ुवस्सुवः ओम ओम् आम् नमः भवे तमयो भवेत नमः शङ्कराय तमयस्करायत नमः शिवायत शिवतरायत वृन्निरसिहव्यवाहनो रौद्रेणानिकेन पाहि अग्ने आग्ने पुंसेः म् ओम् भोर्भुवत्सुवरोम् शिरदस्थाने रुद्राय नमः ओम् भोर्भुवत्सुवः ओम् इम् नमः शम्भवेतमजो भवे च नमः शङ्कराय च शिवाय च शिवतराय च वात्रोप्रते तारौद्रेणानेकेन पाहि मा आज्ञेऽपि बृहे माहि भोर्भुवस्वरोम् मूर्धस्थाने रुद्धाय नमः ओम् भोर्भवत्सुवः ॐ ईं नमः शम्भवे तमजो भव त नमः शङ्कराय तमयस्कराय त नमः शिवाय च शिवतराय च रुश्ववेतारोंसी ओम् भोर्भुवःसुभरोम् ललाटस्थाने रुद्राय नमः ॐ भोर्भुवःसुवः ॐ उं नमः शम्भवे भवे तमः शङ्कराय तमयस्कराय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 ऋषिरसि कवीरौद्रैणानेकेन पाहि माज्ञेऽपि प्रहि ओम ॐ ॐ भोर्भुवस्सुवरोम् भ्रूस्थाने रुद्राय नमः ॐ भोर्भुवस्सुवः ॐ ऊम् नमः शम्भवेतमयो भवेत नमः शङ्कराय तमयस्करायत नमः शिवायत शिवतरायत अङ्गारिरसिबम्भारीरौद्रैणानेकेन पाहि माज्ञेऽपि प्रहि मामाहिगुंश्रीः भुवस्सुवरोम् मुखस्थाने रुद्राय नमः ओम् भोर्भुवस्सुवः ॐ नमः शम्भवे तमयो भवेत नमः शङ्कराय तमयस्कराय च नमः शिवाय च शिवतराय च अवस्य स्वान्द्रौद्रेणानेकेन पाहि मा आज्ञेऽपि ऋम् ओम् भूर्भुवस्सुव रोम् कण्ठस्थाने रुद्राय नमः ओम् भूर्भुवःसुवः ॐ ओम नमः शम्भवे तमजो भवेत नमः शङ्कराय तमयस्कराय च नमः शिवाय च शिवतराय च शुन्झोरसिमार्जालीयोद्रेणकेन पाहि मा आग्नेऽपि प्रहि मा मांश्रीः ऋम् ओम् भोर्भुवस्सुवरोम् बाहुस्थाने रुद्राय नमः ओम् भोर्भुवस्सुवः ओम, ॐ ऋ नमः शम्भवेतमयो भवेत नमः शङ्कराय तमयस्करायत नमः शिवायत शिवतरायत सम्राटसि कृशानूरोद्रैणानेकेन पाहि माग्ने पुंसे ऋम् ओम् भोर्भुवत्सुवरोम् ऊरुस्थाने रुद्राय नमः ओम् भोर्भुवस्सुवः ओम् भृम् नमः शम्भवे तमयो भवेत नमः शङ्कराय तमयस्कराय च नमः शिवाय च शिवतराय च परिषद्योऽसि पवमानो रोद्रेणानेकेन पाहि मा ृम् ओम् भोर्भुवस्सुवरोम् हृदयस्थाने रुद्राय नमः ओम् भोर्भुवस्सुवः ओम् एम् नमः शम्भवे तमयो भवेत नमः शङ्कराय तमयस्करायत नमः शिवायत शिवतराय च पृथक्वासि नमः स्वान्द्रौद्रैणानेकेन माहिमाग्नेऽपि ब्रहि मा मामायि पुंसी एम् ओम् भोर्भुवस्सुवरोम् रुद्राय नमः ओम् भोर्भुवस्सुवः ओम् ऐम् नमः शम्भवे तमजो भवे च नमः शङ्कराय तमयस्कराय च नमः शिवाय च शिवतराय च पाहिमा आज्ञेऽपि ब्रहि मा मामाजिपुंसीः ऐम् ओम् कटिस्थाने रुद्राय नमः ओम् भोर्भुवस्सुवः ओम् ओम् नमः शम्भवे तमजो नमः शङ्कराय तमयस्करायत नमः शिवाय च पाहिमा आग्नेपि गृहि मांसी र्भुवस्सुवरोम् उरुस्थाने रुद्राय नमः ओम् भोर्भुवस्सुवः ओम् औम् नमः शम्भवे तमयो भवेत नमः शङ्कराय तमयस्करायत नमः शिवायत शिवतरायत ब्रह्मज्योतिरसि सुवर्धामारोद्रेणानेकेन पाहि मा आज्ञेहि माहि पुंसीः औम् ओम् भोर्भुवःसुवरोम् जानुस्थाने रुद्राय नमः ओम् भोर्भुवस्सुवः ओम् अम् नमः शम्भवे तमजो भवेत नमः शङ्कराय तमयस्कराय चा। नमः शिवाय च अजोस्येकपाद्रौ द्रैनानेकेन पाहि माज्ञेऽपि प्रेमा मामाहि पुंसी अम् ओम् भूर्भुवस्सुमरो जङ्घास्थाने रुद्राय नमः ओम् भोर्भुवस्सुवः ओम् अह नमः तमयो भवेत नमः शङ्कराय तमयस्करायत नमः शिवायत शिवतराय च बहिरसि बुद्धियो रोद्रेणानेकेन पाहि मा आज्ञेऽपि पहि मा अह ओम् भोर्भुवस्सुवरोम् पादस्थाने रुद्राय नमः तगस्थिगतैः सर्वपापैः प्रमुच्यते सर्वभूतेष्वपराजितो भवति ततो भूतप्रेतपिशाद ब्रह्म राक्षसयक्षयमदूतशाकिनी डाकिनी सर्पश्वापदवृश्चिकतस्कराद्युपद्रवाद्युपघाताः सर्वे ज्वलन्तम् पश्यन्तु माम् रक्षन्तु यजमानं रक्षन्तु मनोर्जोतृजुषतामाज्यम् विच्छिन्न यज्ञकुम् समिमं दधातु या इष्टा उषसो निमृतश्च ताः सन्दधामि हविषा घृतेन गुश्याय नमः अबोर्ध्यग्निः समिधा जनानाम् प्रतिधेनुमिवायते मुषासम् यह्वा इव प्रभयामुज्जिहा नमः अग्निर्मोर्धादिवः अयम् अपागम् प्रेतागुम्सि जिन्वति श्रुतया जनमः वोर्धानम् दिवो अर्हतिम् पृथिव्या वै एश्वा नरहृताय जातमग्निम् कविकुम् सम्राजमतिथिञ्जनानामासन्ना पात्रम् जनयन्त देवाः ण्ठा जनमः मर्माणि ते वर्मभिश्चादयाभिसो बस्ता राजामृतस्तास्ते अस्तु निरन्धन्त्वामनुमतन्तु देवा, मुखाय नमः जातवेदा यदि वा पापकोऽसि वैश्वाधरो यदि वा वैद्युतोऽसि सम्प्रजाभ्यो जनमानाय लोकम् ऊर्जम् पुष्ट्यम् तदभ्यापवृत्सा शिरसे नमः ब्रह्मा आत्मन्वत सृजत तदकामयत समार्तनापद्येजयति आत्मन्नात्मन्नित्यामन्त्रयत तस्मै दशमकुम्भूतः प्रत्यशृणोत् स दशभूतो भवत् दशभूतो हवै तम् वा एतम् दश होत कुम्सन्तम् दश होतेत्याजक्षते परोक्षेण परोक्षप्रियायि वसि देवाः आत्मन्नात्पन्नित्यामन्त्रयत तस्मै सप्तमकुम्भूतः प्रत्यशृणोत् स सप्तहूतोऽभवत् सप्तहूतो हवैनामैषः तम् वा एतगुम् सप्तभूतकुम् सन्तम् सप्तहूत इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि आत्पन्नात्पन्नित्यामन्त्रयता तस्मै षष्ठबम्भूतः प्रत्यशृणोत् सषड्ढूतोऽभवत् षड्ढूतोभवै नामैषः तम्बा एतम् षड् सन्तम् षड्भोतेत्याचक्षते परोक्षेण परोक्षप्रियाय देवाः आत्मन्नात्पन्नित्यामन्त्रयता तस्मै पञ्चमकुम्भूतः प्रत्यशृणोत् स पञ्चभूतो भवत् पञ्चभूतो हवैनामैषः तम् वा एतम् पञ्चभूतकम् सन्तम् पञ्च होतेत्याचक्षते परोक्षेण परोक्षप्रियाय देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै चतुर्थगुम् होतः प्रत्यशृणोत् होतो चतुर्होतोऽभवत् चतुर्होतो हवै नामैषः तम् वा एतम् चतुर्होदगम् सन्तम् चतुर्होतेत्याचक्षते परोक्षेण परोक्षप्रियायि बहि देवाः तमब्रवीत् तुम् वै मेनेतिष्ठगुम् होतः प्रत्यश्रौषीः त्वेनानाख्यातार इति तस्मान्नु वैनागिश्चतुर्होतार इत्याचक्षते तस्माक्षिश्रोषस्पुत्रानागुम्हृद्यतमः नेदिष्ठो हृद्यतमः नेदिष्ठो ब्रह्मणो भवति य एवम् वेद आत्मने नमः येनेदम् भूतम् भुवनम् भविष्यत्परिगृहीतमृतेन सर्वम् येन यज्ञस्त्रायते सप्तभूता तन्मे मनः शिव सङ्कल्पमस्तु येन कर्माणि प्रचलन्ति धे राजतो वाचा मनसाचारुजन्ति यत्संमिदमनुसंयन्ति प्राणिनस्तन्वे मनः शिवसङ्कल्पमस्तु येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदधे सुधीराः पूर्वम् यक्षमन्तः प्रदानान्तन् यत्प्रज्ञानमुत चेताधृतिश्च यत् ज्योतिरन्तरमृतम् प्रजासु यस्मान्नृते yes. किञ्चनकर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु सुशारथिश्वानि वयन्मनुष्यान्ने नीयते भेषुभिर्वाजिनैव तत्र तिष्ठन् यतजिरञ्ज तिष्ठन्तन्मे मनः शिवसङ्कल्पमस्तु यस्मिन्द्र च सामयजोगुम् श्रि यस्मिन्द्रतिष्ठार्थनाभाभिः यस्मै कश्चित्तकुम् सर्वमोतम् प्रजानान्तन्मे यदत्र षष्ठम् त्रिशतकुम् सुवीरम् यज्ञस्य गुह्यन् नवनाममायम् दश पञ्च त्रिगुंशतम् यत्तरम् यज्जाग्रतो दूरमुदैति दैवम् तदु सुप्तस्य तथैवैति दूरङ्गमम् ज्योतिषाम् ज्योतिरेकन्तम् मे मनः शिव सङ्कल्पमस्तु येनेदम् जगतो बभूवये देवापि महतो जातवेदाः तदवाग्निस्तमसो ज्योतिरेकन्तम् मे मनः शिव जय नद्योः पृथिवीतान्तरिक्षम् च जय पर्वताः प्रतिशोदिषश्च जय नेतम् च गतव्याप्तम् प्रजानान्तन् वय मनः शिवसङ्कल्पमस्तु जय च देवाय दिव्या आपो ये सूर्यरश्मिः श्रोत्रे चक्षुषी सञ्चरन्तम् तन् मे मनः शिव सङ्कल्पमस्तु अचिन्त्यम् चाप्रमेयम् च व्यक्ताव्यक्तपरम् च यत् सूक्ष्मात् सूक्ष्मतरम् जेयन्तन् मे मनः शिव सङ्कल्पमस्तु एका च दशतम् च सहस्रम् चायुतम् च नियुतम् च प्रयुतम् चार्बुदम् च न्यर्बुदम् च समुद्रश्च मध्यम् चान्तश्च परार्धश्शतम् मनः शिवसङ्कल्पमस्तु ये पञ्च पञ्चदशशतकुम्सहस्रमयुतन्यर्बुदम् च ते अग्निदिचेष्टकास्तकुम् शरीरम् तन्मे मनः शिवसङ्कल्पमस्तु वेदाहमेतम् पुरुषम् महान्तमादित्यवर्णन्तमसः परस्तार यस्य योनिम् परिपश्यन्ति धीरास्तन् मे मनः शिव सङ्कल्पमस्तु यस्येतम् धीराः पुनन्ति कवयो ब्रह्माण्डमेतन्त्वावृणत इन्दुम् स्थावरञ्जङ्गमन् जौराकाशम् तन् मे मनः शिव सङ्कल्पमस्तु परात्परतरम् चैव यत्तरा यत्तरम् यत्तरात्परतो ज्ञेयन्तन्वे मनः शिवसङ्कल्पमस्तु परात्परतरो ब्रह्मा तत्तरात्परतो हरिः तत्तरात्परतोऽधीशस्तन्वै मनः शिवसङ्कल्पमस्तु या वेदादिशु गायत्री सर्वव्यापी महेश्वरी यज्ञजुः सामाथर्वैश्च तन्मे मनः शिव सङ्कल्पमस्तु यो वै देवम् महादेवम् प्रणवम् परमेश्वरम् यः सर्वे सर्ववेदैश्च तन्मे मनः शिव सङ्कल्पमस्तु प्रयतः प्रणवोऽङ्कारम् पुरुषोत्तमम् ओङ्कारम् प्रणवात्मानन्दन् मे मनः शिव सङ्कल्पमस्तु योऽसौ सर्वेषु वेदेषु वे पठ्यते अकायो निर्गुणो ह्यात्मा तन् मे मनः शिवसङ्कल्पमस्तु रोभिर्दुष्टन्धरेण श्यायुषा चपलेन च प्रजया पशुभिः पुष्कराक्षन्तन् मे मनः शिवसङ्कल्पमस्तु कैलासशिखरे रम्ये शङ्करस्य शिवालय देवतास्तत्र मोदन्ते तन्मे मनः शिवसङ्कल्पमस्तु त्र्यम्बकैयजामहे सुगन्धिम् पुष्टिवर्धनम् उरुवारुकमिव बन्धनान् मृत्योर्मोक्षे यमामृता तन्मे मनः शिवसङ्कल्पमस्तु विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो हस्त उत विश्वतस्त्वात् स्तम् बाहुभ्यान्नमति सम्पद त्रयेऽद्या वा पृथिवी जनयन् देव एकस्तन्मे मनः शिव सङ्कल्पमस्तु चतुरो वेदानधीजीत सर्वशास्त्रमयम् विदुः इतिहास पुराणानान्तन्मे मनः शिव सङ्कल्पमस्तु मा नो महान्तमुतमानो अर्भकम् मान भुक्षन्तमुतमान भुक्षितम् तानोऽवधेः पितरम् मोतमातरम् प्रियामाणस्तनुवोरुद्रवेरिहस्तन् भे मनः शिवसङ्कल्पमस्तु मानस्थोतन जयमान आयुषि मानो दोषु मानो अश्वेश्वरेशः विश्वम्नः शिव सङ्कल्पमस्तु ऋतगुम् सत्यम् परम् ब्रह्म पुरुषम् कृष्ण पिङ्गलम् ऊर्ध्वरे तम् विलोपाक्षम् विश्वरूपाय वैनमो नमस्तन् वै मनः शिव सङ्कल्पमस्तु रुद्राजप्रचेतसे मेढुष्टमायतव्यसे वोचय वशन्तमगम् हृदे सर्वोऽशेष रुद्रस्तस्मै रुद्राय नमो अस्तु तन्मे मनः शिवसङ्कल्पमस्तु ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषे मतः आवाह आवह स उपमा अस्य विष्ठा सतश्च यो मे मनः शिवसङ्कल्पमस्तु यः प्राणतो निमिषतो महे त्वै खरिद्राजा जगतो बभूव य एष अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विध मतन् मे मनः शिव सङ्कल्पमस्तु य आत्मदापरदा यस्य विश्व उपासतय प्रशिष यस्य देवा यस्य यस्य मृत्युः कस्मै देवाय हविषा विध मतन् मे <��रुद्रो यो रुद्रो अग्नौ यो अप्सुय ओषधीषु यो रुद्रो विश्वा भुवना विवेशरस्मै रुद्राय नमो अस्तु तन्मे मनः शिव सङ्कल्पमस्तु गन्धद्वारान् दुराधर्षान्नित्यपुष्टाम् ईश्वरे कुम् सर्वभूतानान्ता विहोपह्वयन्तम् मे मनः शिवसङ्कल्पमस्तु च इतकुम् शिवसङ्कल्पकुम् सदा ब्राह्मणाः परम् मोक्षम् गमिष्यन्ति तन्मे मनः शिव सङ्कल्पमस्तु हृदया जनमः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदकुम् स्वरूपम् यद्भूतै यच्च भव्यम् वृतामृतत्वस्येशानः यदन्धेनादिरोहति एतामानस्य महिमा अथोज्यायागश्च पूरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोऽर्ध्व उदयेत्पुरुषः पादो अस्य भवात् पुनः ततो विश्वम् व्यक्रामत् शाशनानशरे अभि तस्माद्विराडजायत विराजो अधिकोरुषः सजातो जातो अत्यरिच्यता पश्चाद्धो विमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्मता वसन्तो अस्यासीराज्यम् ग्रीष्म युद्धः सप्तास्यासन् परिधयः त्रिः सप्त समिधः कृताः देवा यद्यज्ञन्तन्वाणाः देवा अयजन्त साध्याऋषयश्च ये तस्माद्यज्ञात्सर्वहुतः सम्भृतम् पृषदाद्यम् पशोगस्तागश्चक्रे वाज आरण्याङ्ग्राम्याश्च तस्माद्यज्ञात्सर्वहुतः छन्दागुंसिजज्ञरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त के तव भजा ततः गावो हज्जते तस्मात् तस्माज्जाता अजावयः यत्पुरुषं कति व्यदसुः कतिधाव्यकल्पयन् मुखम् किमस्य को बाहू का भूरोपादाच्येत ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः पूर्वतदस्य यद्वैष्यः प्रध्वाकुंशोद्रो अजायत चन्द्रपामनसो जातः चक्षुः सूर्यो अजायत खादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षम् श्रेष्णोद्योः समवर्तत पभ्राम्भो निर्दिश्रोत्रात् तथा लोकागम् अगोपयन् पुरुषं पुरुषम् महान्तम् आदित्यवण्डन्तमसस्तु पारे सर्वाणि रूपाणि विचित्तधीरः नामानि कृत्वाभिवदनयदास्ते धाता पुरस्ताद्यमुदा जहारा शक्रः प्रविद्वान् प्रदिशश्चतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः शिरसे स्वाहा अध्वः सम्भूतः पृथिव्ये रसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेते तत्पुरुषस्य विश्ववाचा नमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवण्णन्दमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्थानाय प्रजापतिश्चरति गर्भे अन्तः प्रजायमानो बहुधा विजायत तस्य धेराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति मेधसः यो देवेभ्यातपति यो देवानाम् पुरोहितः देवेभ्यो जातः जब्राह्मज रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तद ब्रमन् यस्त्वैवम् ब्राह्मणो तस्य देवा असन्वश हेश्च लक्ष्मेश्च पत्न्यौ पार्श्वे नक्षत्राणि रूपम् अश्विनौ वित्तम् इष्टम् वनिषाण अमुम् वरिषाण सर्वम् शिखायै वषट शिश्यो वृषभो न युद्मोघना घनः क्षोभणश्च सङ्क्रन्दनो निमिष एकवीरश्चतकुम्भेनाजयत्थाकमिन्द्रः सङ्क्रन्दनेना निमिषेण दुष्णुना युत्कारेण दुश्चभेन धष्णुना दुरिन्द्रेण जयतत्सहध्वर्युथो न रयिषु हस्तेन वृष्णा सरेषु हस्तये स निषङ्गशे स्रष्टाथ युध इन्द्रो गणेन स्रष्टोप बाहुश्योन् वा प्रतिहिताभिरस्ता अपबाधमानः प्रभुञ्जन्सेनाः प्रवृणो युधा जयन्नस्माकमेधारथानाम् गोत्रमिदम् गोविदम् वज्रबाहुञ्जयन्त मज्म Ima Gumsajata Anu Vera Yadha Mindra Gumsakhayo Nusakumra Padvam Balavijyaya Stavira Stavira Stavira Stahaswana Vaji Sahamana Ugraha Abhi Vero Abhisattasahoyaja Jaitra Mindra Rathamadishtha Govitar Abhi Gotra Nisaha Saga Hamanodayo Vera Stavanyorindra Dushyavana Pratanashada Yudjo Asna Kakumse Naavatuprajutsu इन्द्र आसान् नेता बृहस्पतिर्दक्षिणा यज्ञः पुरयतु सोमः देवसेनानामभिभञ्ज तीनाम् जयन्तेनाम् मरुताजन्तग्रे इन्द्रस्य कृष्णो वरुणस्य राज्ञादित्यानाम् मरुता गुंसर्ध उग्रम् महामनसाम् भुवनच्यवानाम् घोषो देवानाम् जयतामुदस्थात् अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकैया इष हस्ताजयन्तु अस्माकम् वीरा उत्तरे भवन्तु अस्मानु देवावताहवेषु उद्धर्षयमघवन्नायुधान्युत्सत्वनाम् उद्भृद्रहन्वाजिनाम् वाजिनान्युद्रथानाञ्जयतामे तुघोषः उपप्रेतजयता नरस्थिरावः सन्तु बाहवः इन्द्रोपश्रमयच्छ त्वना भृष्या यथा सथा अवसृष्टा परापदशरव्य ब्रह्म सगुंसिता गच्छामित्रान्वेषमैषाम् कञ्चनोच्छिषः ब्रह्माणि देवया वि सोमस्ता राजामृते यो वरिवस्ते अस्तुलयन्तम् तामनुमदन्तु देवाः यत्र इन्द्रो रस्तत्र वृत्रहा विश्वाः शर्म मेककपालान् निरुपत्यैकमते यावन्तो गृह्या स्मस्तेभ्यः कमकरम् पशो नागुम् शर्मासि शर्म यजमानस्य शर्म मे यच्छैक एव रुद्रो न द्वितीयायतस्थ आखुस्ते रुद्रपशुस्तञ्जुषते रुद्रभागः सहस्वश्राम्बिकजातञ्जुषस्व भेषजङ्गभेष्वाय पुरुषाय भेषजमथो अस्तभ्यम् भेषजगुम् सुभेषजम् यथा सुगम् मेशायमेश अवा यथा नश्रेयसः करद्यथा नो यस्य सः करद्यथा नः पशुवदः करद्यथा नो व्यवसाययात् त्र्यम्बकै यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् नृत्योर्मक्षेयमावृता येष ते वसेन परोमो जतो सन्नापि नागहस्ताः ो रुषमेककपालान् निर्वपति जाता एव प्रजा निरवदयते निरवदयत् एकमतिरिक्तम् जनिष्यमाणा एव प्रजा रुद्रान् एककपाला भवन्ति एकथैव रुद्रम् निरवदयत् नाभिखारयति यदभिघारयत् अन्तरवचारिणकुम् रुद्रम् कुर्यात् एकोन्मुखे न यन्ति तद्धि रुद्रस्य भागधेयम् निशयन्ति एषा वै रुद्रस्य लिख स्वायामेव दिशि रुद्रम् निरवदयत् रुद्रो वा अपशुकाय आहुत्यैनातिष्ठत असौ ते पशुरिति निर्दिशेद्यम् दुष्यात् यमेव द्वेष्टि तमस्मै पशुम् निर्दिशति यदि नद्विष्यात् आखुस्ते पशुरिति ब्रूयात् न ग्राम्यान् ो नाम अग्निवत्तेव जुहोति मध्यमेन पर्णेन जुहोति निरवदयते एष ते रुद्रभागः सह स्वस्राम्बिकयेत्याह शरद्वारस्याम्बिका तया वा एष हिनस्तिनस्ति तदैव सह शमयति भेषजङ्गमय्या यावन्त एव ग्राम्याः पशवः तेभ्यो भेषजम् करोति अवाम्बरुद्रमतिमहीत्याैतामाशास्ते त्र्यम्बक इत्याह मृत्योर्मोक्षे यमामृतादिपा वैतताः उत्किरन्ति भगःस्य लेप्सन्ते मूते कृत्वा सजन्ति यथा जनै यते वसङ्करोति तादृगेव तत् एषते भाग इत्याः निरवत्यै अप्रतीक्षमायन्ते अवः परिषिञ्च रुद्रस्यान्तरिवा एतेस्तावन्ते येत्र्यम्बकैश्चरन्ति आदित्यन्तरम् पुनरेत्य निर्वपति यम् वा अदितिः अस्यामेव प्रतिष्ठन्ति नेत्रत्रयाय भूषत त्वमग्ने रुद्रो असुरो महो शर्धो मारुतम् रक्ष एष त्वम् वातैर् रुणैर्यासि शङ्गयस्त्वम् पूषापि धतस्त्वासि नुत्मना आपोराचारमध्वरस्य रुद्रगम् होतारकम् सत्यजगुम् अग्निम् पुरातनयत्नो रचित्ताद्धिरण्यरूपमवसे गृणध्वम् अग्निलहो तादृशसानुपस्थे मातुः सुरभावलोके युवाकविः पुरोनिष्ठरता वा धर्ता कृष्णेनामुतमध्ययुद्धः सा द्वेव कर्दैव वीतिन्नो अद्य यज्ञस्य जिह्वापवितामगुह्या युरागाक्षुरभिर्वसानो भद्रामकर्देवहोरिन्नो अद्य अक्रन्ददग्निस्तनयन्निवद्योः क्षामारेभद्वीरुधः समञ्जन् सद्यो जानोभिः मिग्धो अक्षदा रोदसी भानुनाभात्यन्तः देवसूनिपूर्वणीकहोदर्दोषावस्तो रेरिरे यज्ञिया रे सह क्ष्यामेव विश्वा भुवनानि यस्मिन् सगुम्सौभगानि दधिरे पावके तुभ्यन्ता अङ्गिरस्तमविश्वासुक्षितयः पृथग अग्ने कामायेमिरे अश्यामतम् काममग्ने तपोत्यश्यामतयगुम् रैव सुवीरम् अश्यामवाजमभिवाजयन्तोऽश्यामद्युन्नमज श्रेष्ठै अविष्ठभारताग्ने द्विमन्तमाभरा वसो पुरुःस्रहकुम् रयिम् सश्विधानस्तन्यतोः यः पापकः पुरुतमः पुरूणि पृथोऽन्यग्निरनुयाति भवन् आयुष्टविश्वतो तथ दयमग्निरुवरेण्यः पुनस्त प्राण आयति परायक्ष्मकुम् सुवामिते आयुर्दा अग्हविषो जुषाणो घृतप्रतीको घृतयो निवेदि कृतम् वेत्तामधुचारुकव्यम् पितेव पुत्रमभिरक्षता दिवम् तस्मैत प्रतिहर्यते जातवेदो विचर्षणे अग्ने जनामि सुष्ठुतिम् दिवस्तप्रथमञ्जज्ञे अग्निरस्मद्वितीयम् परिजातवेदाः तृतीयमप्सु द्रवणा अजस्रविन्धानः श्रुतिः पावकवन्द्योऽग्ने बृहद्दिरोच त्वम् कृतेभिराहुतः विषानो रुक्म उर्व्याप्यद्यो धर्मऋषमायुश्रियरुचारः अग्निरमृतो अपि अद्ययो भीयते नन्द्यौरजनयत्सुरेताः आयदिशे नृपतिम् ते दादक्षुचिरेतो निषक्तम् योरभीके अग्निः श्रद्धवनपद्यम् युवानग्नः स्वाधियञ्जनयत्सूदयच्च स ते जेयसा मनसात्त्वत उत शिक्षस्वपत्यस्य शिक्षोः अग्ने राजोऽनुतमस्य प्रभूतो भूयामते वस्वः अग्ने सहन्तमाभरद्युम्नस्य प्रासहारयिम् विश्वायश्च ऋषणेरभ्यासा वाजेषु सा सहत् तमग्ने प्रतदासहुं वै पुंसहस्व आभरा त्वगुं सत्यो अद्भुतो दाता वाजस्य गोमतः वृक्षान्दाय वशान्दाय सोमपृष्ठाय वेधस स्तोमैर्विधमाग्न पद्माहि सोनो अस्य सत्वम् न ओर्जस न ओर्जन् अग्नायोगुम् शिपवसा सुवोर्धमिषञ्जनः आरेभातस्व दुच्छुना अग्नेपवः स्वप अस्मे वर्चः सुवीर्यम् तथा अग्ने, पा सु अग्ने पावकरोचिषा मन्दया देवजिह्वया आदेवानुवक्षियक्षिता सरः पावकदिवोग्ने देवाकुम् इहावः उपयज्ञकुम् हविश्चनः अग्निश्रुतिर्व्रततमश्रुतिर्विप्रश्रुतिः कविः शुचिरोचतः हुतः उदग्ने शुचस्तव शुक्राभ्राजन्तरीरते तव ज्योतेगः शर्तयः त्वमग्ने रुद्रो असुरो महो दिवः त्वगुं शर्धो मारुतम् रक्षयैषे त्वम् वातैर् रुणैर्यासि शङ्गयः त्वम् पूजा विधतः पासि नोत्तना देवा देवेषुश्रयध्वम् प्रथमा द्वितीयेषुश्रयध्वम् द्वितीया तृतीयेषु श्रयध्वम् तृतीयाश्चतुर्थेषु श्रयध्वम् चतुर्थाः पञ्चमेषु श्रयध्वम् पञ्चमा षष्ठेषु श्रयध्वम् षष्ठा सप्तमेषु श्रयध्वम् सप्तमा अष्टमेषु श्रयध्वम् अष्टमा नवमेषु श्रयध्वम् नवमा दशमेषु श्रयध्वम् दशमा एकादशेषु श्रयध्वम् एकादशा द्वादशेषु श्रयध्वम् द्वादशास्त्रयोदशेषु श्रयध्वम् त्रयोदशाश्चतुर्दशेषु श्रेयध्वम् चतुर्दशाः पञ्चदशेषु श्रेयध्वम् पञ्चदशा षोडशेषु श्रयध्वम् षोडशाः सप्तदशेषु श्रयध्वम् सप्तदश अष्टादश एकान्न विपुंसे शुश्रयध्वम् एकान्न विपुंसा विपुंसेषु श्रयध्वम् विपुंसा एक विपुंसेषुश्रयध्वम् एकविपुंसा द्वा विपुंसेषुश्रयध्वम् द्वाविपुंसास्त्रयो विपुंसे शुश्रयध्वम् त्रयो विपुंसाश्चतुर्विपुंसेषुश्रयध्वम् चतुर्विपुंसाः पञ्च विपुंसे शुश्रयध्वम् पञ्चविपुंसा षड् विपुंसेषु षड्विपुंसाः सप्त विपुंसेषु श्रयध्वम् सप्त विपुंसा अष्टाविपुंसेषु श्रयध्वम् अष्टाविपुंस एकान्न त्रिपुंसेषु श्रयध्वम् एकान्न त्रिपुंसास्त्रिपुंसेषु श्रयध्वम् त्रिपुंस एकत्रिपुंसेषु श्रयध्वम् एकत्रिपुंसा देवास्त्रिरेकादशास्त्रिस्त्रयस्त्रिपुञ्जाः उत्तरे भवत उत्तरवर्त्मान उत्तरसत्त्वानः यत्काम इदम् जहोमि तन्मे समृद्ध्यताम् वयज्ञस्यामपदयोरयेणाम् स्व स्वाहाय फट् भूर्भुवस्वरोति दिग्बन्धः क्षसद्धोतावेशति गोजारतजा अध्रिजा रतम् बृहद् रतद्विष्णस्तव्याय मृगो न भेमः कुतलोकिरिष्ठाः यस्य ऋषु त्रिषु विक्रमणेषु अधिक्षयन्ति भुवनानि विश्वा त्र्यम्बकै यदामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्युम्मृता तत्स विणेमहे वयम् देवस्य भोजनम् श्रेष्ठम् सर्वधातमम् तुरम्भगस्य धीमहि विष्मर् त्वष्टा रूपाणि विपुंसतु आसीन्ततु प्रजा पतिः धाता गर्भम् दधातु ते हिरण्यगर्भस् समवर्तताग्रे धातः पतिरेक आसीत् सदाधार पृथिवेन्द्यामुते माम् कस्मै देवाय हिषा विधेम उमा महेश्वराभ्या नमः यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव य देवाय हविषा उमामहेश्वराभ्यान्नमः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषे मतः सुरुजो भेन आवह सबुद्धया उपमास्य विष्ठाः सतश्च यो विमह उमामहेश्वराभ्यां नमः महेद्योः पृथिवे च इव यज्ञम् विविक्षताम् विवृतान्नो परेमभिः उमामहेश्वराभ्यां नमः उपश्वासय पृथिवे मुद्याम् पुरुत्रात जगत् सदुन्दुभय सजोरिन्द्रेण देवै दूरादीयो अपसेधत्रू उमामहेश्वराभ्याम् नमः अग्ने नय सुपथ राय अस्मान् विश्वानि देव मयूराणि विद्वान् योऽध्यस्मजुहरायण मे नो भूयिष्ठान्ते नम मुक्तिम् विधेम उमामहेश्वराभ्याम् नमः या ते अग्ने रुद्रया तलोस्त या नः पाहि तस्यास्ते स्वाहा उमामहेश्वराभ्याम् नमः इम इयमप्रस्तरमहिलैलाङ्गिरोभिस्तुभिः संविधानः कविशस्तावहन्ते नाराजन हमिषामादयः स्वा उमामहेश्वराभ्याम् नमः वस्तु सर्गस्थितिलयादिकम् निर्गुणम् निष्कलम् नित्यम् मनोभाचामगोचरम् गङ्गाधरम् शशिधरम् जटा मकुटशोभितम् श्वेतभूतित्रिपुण्ड्येण विराजितललाटकम् लोचनत्रयसम्पन्नम् सुवर्णकुण्डलशोभितम् स्मेरानम् च दुर्बाहम् मुक्ताहारोपशोभितम् अक्षमालाम् सुधाकुम्भम् चिन्मये मुद्रिकामपे। पुस्तकम् च भुजेर्दिव्यैर्दधानम् पार्वतीपतिम् श्वेताम् वरधरम् श्वेतम् रत्नसिंहासनस्थितम् सर्वाभीष्टप्रदातारम् सुवर्णरत्नखचितमकुटेन विराजिताम् ललाटपट्टसम्राजत् संलग्नतिलकाञ्चिताम् राजेवायत नेत्रान्ताम् नीलोत्पलेक्षणाम् सन्तत्त हेमखचितटङ्काभरणान्विताम् ताम्बूलचर्वणरत रक्तजिह्वा विराजिताम् पाकाभरणोपेताम् मुक्ता हारोपशोभिताम् सुवर्णकङ्कणसंयुक्तैश्चतुर्भिर्बाहुभिर्युताम् सुवर्णरत्नखचित काञ्चितामविराजिताम् कदले ललितस्तम्भ सन्निभोरुयुगान्विताम् श्रेयाविराजितपदाम् भक्तत्राणपरायाम् अन्योन्याश्लिषु बाहुगौरी शङ्करसंज्ञकम् सनातनम् परम् ब्रह्म परमात्मानमव्ययम् आवाहयामि जगतामीश्वरम् परमेश्वरम् आत्वा वहन्तु हर यः स चेतसश्वेतैरश्वैः सह चेतुमद्भिः माताजितैर्बलवद्भिर्मनोज वैराया हि शीघ्रम् महाव्याय सरुपो त्रियम्बकै यजामहे सुगन्धिम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षे गौरीमिमायस लीलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी अष्टापदी नवपदे बभूवुषी सहस्राक्षरा परमेभ्यो मन् ओम् आभिर्गेऽर्भिर्य ततो न ऊनमाप्यायय हरिवो वर्धमानः यदा स्तोदृभ्यो महि रुजासि भूयिष्ठमा गो अदस्याम ब्रह्मप्रभादि स्मदन्दोगासीत् ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ